हरि ओम् श्रीसीता रामचन्द्राभ्याम् नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे त्र्यधिकशततमः सर्गः श्रीरामादीनां विलापः तैः पितरे जलाञ्जलिदानं पिण्डदानं रोदनं च तां श्रुत्वा करुणां वाचम् पितुर्म रणसंहिताम् गेतन तम तो वज्रमिवत्सृष्टम रेदान वारेण वाग्वज्रम भरते नोक रमनो परंतपह, तप्रोह रामो वै पुष्पितांग वज्रुम वने परुना तथा भुवि पपातह, तथा पति रा जगत्यां जगत जगती पतिलखाते श्रा प्रसुप्त मव कुंजर भात्रस्ते महेश्वासम शोककर्षित रुदंत सह वैदे सिशीशू सल वै सू सन्यां पुनर्लभ्वाभ्याम अश्रुम मुछ्रूजन उपाक्रमत काकुत्थ षि सराम सर्गत श्रुवा पितरम पृथिवीपतिवाच भर्तम वाक्य धर्मत्मा धर्म संहित किं क्याध्याति कस्म्रज वराधीनायोध्या पालय कि्यम दुर्जातेन महात्मनः यो मृतो मम शोकेन स्वमया न च संस्कृतः अहो भरतः सिद्धार्थौ येन राजा त्वया नघ शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृतः निष्प्रधानाम् मन एकाग्रम् नरेन्द्रेण विना कृतम् निवृत्त नायोध्याम् गन्तुमुत्सहे समात्र वनवासम् माम् अयोध्यायाम् परन्तप को नु शास्त्रशिष्यति पुनः ताते लोकान्तरम् गते पुराप्रेक्ष्य सुहृत्तम् माम् पितायान्याः सान्त्वयन् वाक्यानि तानि शोष्यामि कुत्र कर्णसुखान्यहम् एवम् उपाखभरतम् भार्यामभ्येत्य राघवे उवाच शोक सन्तप्त पूर्णचन्द्र निभाननाम् शीते मृतस्य श्वशुरः पित्रयिनो श्री लक्ष्मण भरतो दुःखमाचष्टे स्वर्गतिम् पृथिवीपते ततो बहुगुणम् तेषाम् बाष्पम् नेत्रेष्व जायत तथा ब्रूवसी कुमाराणाम् यशस्विनाम् ततस्ते भतरस् सर्वे भुशम् आश्वास्य दुःखितम् अब्रुवन् जगतिर्भर्तु क्रियताम् मुदकम् पितुः सा सीता स्वर्गतम् श्रुत्वा श्वशुरम् तमः नृपम् नेत्राभ्याम् अश्रुपूर्णाभ्याम् न शशाके क्षिप्तुम् प्रियम् सान्त्वयि रामो प्रदतिम् जनकात्मजम् वाच लक्ष्मणम् तत्र दुःखितो दुःखितम् वचहे आनयेङ्गूरिन्याकम् क्षीरमाहरचोत्तरम् जलक्रिया सन्ता तस्य गमिष्यामि महात्मनः सीता पुरस्ताद् व्रजतु त्वं व्रज अहम् पश्चाद्गमिष्यामि गतिर्घे च ततो नित्यानुगस्तेषाम् विदितात्मा हमतिः मृदूर्दान्त शकान्तश्च रामे च दृढभक्तिमान् सुमन्त्रस्तये नृपसुतैः सार्धम् आश्वास्य राघवम् अवतार यदालम्ब्य नदीम् मन्दकनिम् शिवाम् ते सुतीर्थाम् तदक्रुशात् उपगम्य यशस्विनः नदीम् मन्दाकिनिम् रम्यम् सदा पुष्पितकाननाम् शीघ्रस्रोतसमासाद्य तीर्थम् शिवम् कर्मम् श्रुचिचूर्तूदकम् राज्ञे सत एतद्भवित्विति प्रगृह्य तु महीपालो जलापूरितमञ्जलिम् दिशम् याम्यामभिमुखु क्रुदं वचनमब्रवीत् एतत् ते राजशार्दूल विमलं तोयमक्षयम् पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ततो मन्दाकिनीतीरं प्रत्युत्तीर्त्य स राघव पितुश्चकार तेजस्वी निर्वापम् भ्रातृभिः सह अङ्गुलम् बदरै मिश्रम् विन्याकं दर्भसंस्तरे न्यस्य राम सुदुःखातु रुदन् वचनमब्रवीत् इदम् भुङ्क्ष्व महाराज प्रीतोय रशना वयम् यदन्नः पुरुषो भवति तदन् तदन्ना तस्य देवता तत तेनैव मार्गेण आरुरोह न रव्याघो रम्यतानु महीरम् तदपर्णकुटिद्वारम् आसाद्य जगति पतिः परिजग्राहपाणिभ्याम् उभौ भरत लक्ष्मणो लक्ष्मणो तेषां तु रुदतां शब्दात् प्रतिशब्दो भवेद्गिरो भ्रातॄणां स वैदेह सिंहानां नर्दतामिव महाबलानाम् रुदताम् कुर्वताम् उदकम् विज्ञाय तुमुलम् शब्दम् त्रता भरतसैनिकः अब्रुवन् चापि रामेण संगतो सङ्गतो ध्रुवम् तेषामेव महान् शब्द शोचताम् पितरम् मृतम् अथ वाहान् परित्यज्य तम् अप्येकम् मनसो यथास्थानं यथास्थानम् प्रधाविता हयैरन्ये गजै अन्ये रथै अन्ये स्वलङ्कृते सुकुमारा तथैवान्ये पद्भिरेव नराययुः अचिरे प्रोषितम् रामम् चिरविप्रोषितम् यथा द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम् भ्रातॄणां त्वरितास्ते तु द्रष्टुकाम समागमम् ययुर्बहुविधैर्यानै कुरेवमि समाकुलै सा भुवि बहुभियानै रथे नेमि समाहत ममोचे तुमलम् शब्दम् यैव समागमे तेन वित्रासिता नाग करेणु परिवारितः आवासयन्तो गन्धेन जग्मुनम् ततः वराहृकसिंहाच महि च श्रुमरस्ततः व्याघ्र गोकर्णगवय वित्रे सुपृश्यतै सह रथानन्दृत अत्युह प्लवाण्डवपरे तथा पुंस्को किल शुक्रोञ्च भैजरे दिश तेन शब्देन वित्रस्यै आकाशम् पक्षिभिवृतम् मनुष्यै आवृता भूमी उभयं प्रभवो तदर्थं पुरुष व्याघ्रम् यशस्विनम् न कल्मषम् आसीनं सन्दिवी रामम् दक्षा विकर्षमाण कैकेयीम् मन्थरसहितमपि अभिगम्य जनो रामम् बाष्पूर्णो मुखो भवेत् तान् नरान् बाष्पूर्णाक्षान् समीक्षाथय सुदुःखितान् पर्यश्वजत धर्मज्ञ पितृवन् मातृवन् वचसः स तत्र काञ्चित् परिहस्व नरान् नरा च केचिम चकार सर्वान् तव बांधवान बान्धवान् यथार्हमासाद्य तदा पद्मज ततः तेषां द्रुतताम् महात्मनाम् भुवं चैकं च न वीणा यन्त्र गुहाकि वीणां च दिश च सन्ततं मृदङ्गघोषो प्रतिमो विषय इत्याशि श्रीमद् रामायणे वाल्मीकि अधिकाव्यधाखण्डे त्र्यधिकशततमा स्वर्ग श्रीसीता रामचन्द्रवणमस्तु